विषये किञ्चित् वदामि परिचय परिचयरूपेण अस्माकं विषयः अस्ति न्यायशास्त्रम् अस्माकं पुस्तकमस्ति विद्याधरी पि पुरतः स्यात् मन्ये अन्नं भट्टैः विरचितं ग्रन् विरचितः ग्रन्थः तर्कसङ्ग्रहः इति तस्य ग्रन्थस्य व्याख्या एव अस्ति विद्याधरी प्राक् किञ्चित् परिचयरूपेण वक्तुमिच्छामिपरायाम् च वर्तेते प्रामाण्यम् अङ्गीकुर्वन्ति न शास्त्रम नास्तिक शास्त्रम ना तथा नास्तिकशास्त्रम् तर्हि आस्तिकशास्त्रे अपि विभागाः सन्ति षड् सन्ति आस्तिकशास्त्रे ते साङ्ख्या योगः न्यायः वैशेषिकः मीमांसा वेदान्त इत्यादीनि सर्वेषाम् लक्ष्यम् मोक्षप्राप्तिः इति मोक्षप्राप्तिम् उद्दिश्य आत्मज्ञानस्य सम्पादनम् एव युक्तिः तेषाम् यद्यपि लक्ष्यं तु सामान्यमेव अस्ति मोक्षप्राप्तिः इति परन्तु षण्णाम् दर्शनानां रीति रीतिः भिन्ना अस्ति वेदस्य प्रामाण्यम् अङ्गीकरणम् अस्ति तेषाम् आस्तिकदर्शनानां परन्तु तत्रापि कश्चन कानिचन वेदः पौरुषेयः कानिचन अपौरुषेयः इति वदन्ति पुरुषेण उक्तः चेत् पौरुषेयः इति उच्यते पुरुषः इत्युक्ते पुरुषे ईश्वरः अपि अन्तर्भूतः तर्हि ईश्वरेण उक्तः अस्ति ऋषिभिः श्रुतः इति पौरुषेयः अन्यानि वेदः अपौरुषेयः इति अनादि केनापि न रचितः अस्ति केनापि न उक्तः अस्ति इति ते वदन्ति अस्तु तर्हि आत्मज्ञानम् एव साधनम् इति चेत् आत्म आत्मज्ञानम् आत्मज्ञानस्य आत्म आत्म सम्पादनम् अपेक्षते तर्हि प्रपञ्चस्य अपि तस्मिन् विद्यमानेषु वस्तूनां ज्ञानम् अपेक्षितम् आत्मज्ञानं ज्ञानस्य सम्पादनार्थं प्रपञ्चे ये ये यानि वस्तूनि सन्ति तेषाम् अवग अवगमनम् अपेक्षितम् तर्हि ज्ञानं चतुर्विधम् प्रत्यक्षम् अनुमितिः उपमानम् शाब्दबोधश्च इति चतुर्विध चतुर्विधानि ज्ञानानि सन्ति प्रत्येकम् दर्शनेन भिन्नम् ज्ञानम् उपयुज्य आत्मज्ञानम् प्राप्यते इदानीम् न्यायशास्त्रम् आस्तिकदर्शनेषु अन्यतमम् इति दृष्टम् आ न्यायशास्त्रम् इत्युक्ते नीयते विवक्षितोर्थः येन इति न्यायः तर्कस्य माध्यमेन जगति यावन्तः पदार्थाः सन्ति तेषाम् अवगमनेन च अन्ततो गत्वा आत्मा इत्युक्ते किम् इति साधयितुम् विद्याधर्यां तर्कसंग्रहे निर्दिष्टानां पदार्थानां विश्लेषणम् तस्य चर्चा भवति तस्य पठनमेव अस्माभिः क्रियते इदानीं भारतविश्वविद्यालयेषु व्याकरणशास्त्रं प्रथमं पठ्यते तदनन्तरमेव तर्कशास्त्रं व्याकरणं तु आरम्भे जटिलम् अनन्तरं सुलभम् इति उच्यन्ते परन्तु न्यायशास्त्रविषये तु आरम्भतः जटिलम् इति वदन्ति जनाः परन्तु अत्र तर्कसङ्ग्रहे एकः कश्चन मग् मङ्गलश्लोकः अस्ति मङ्ग मङ्गलश्लोकः इत्युक्ते निर्विघ्नेन कार्यसमाप्तिः भवतु इति कृत्वा रचयितारः मङ्गलशो श्लोकम् प्रथमतया लिखन्ति ग्रन्थि तत्रापि भिन्नं भिन्नं मतं वर्तते तत्रापि मङ्गलशु श्लोकम् अपेक्षते श्लोकः अपेक्षते वा न इति उदाहरणार्थं चार्वाकाः मङ्गलश्लोकं न अङ्गीकुर्वन्ति परन्तु तेषां ग्रन्थानां समाप्तिः अभवत् एव कादम्बरी इति ग्रन्थं स्वीकुर्मश्चेत् तत्र तस्य समाप्तिः एव नासीत् यद्यपि मङ्गलश्लोकः अस्ति तस्मिन् यत्किमपि भवतु अत्र अत्रापि अन्नं विरचितः विरचिते तर्कसङ्ग्रहे अपि मङ्गलश्लोकः अस्ति तदस्ति बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः इति मङ्गलश्लोकः इत्युक्ते विघ्नं विना निर्विघ्नेन कार्यसमाप्तिः भवतु इति तस्य अर्थः कः अस्तु बालानां सुखबोधाय इति अस्ति बालाः इत्युक्ते के लघुबालकः वा न बालः इति थ्रन्यायसाष्ण्रे कषण're Complac mortari पारि भाषक शबद इड़ Поэтому बाल आल है बालसय लक, लक्षनंगें ग्रहन धारन पट्थु हूँ इडी ते उच्यत्य। ग्रहन धारन फट्थु हूँ इडी यस्य ग्रहन शक्ति ही два पपिच्चा धारन सांबाथ्यमस्ति � अतव्याको अनतीतर्कशास्त्र बाल उच्य अधीतव्याकोधीमतर्कशास्त्र यकरणशिक्षा जर्कस्त्र अयने प्रविष्ट तादृशानां बालानां सौलभ्येन बोधनार्थं तर्कसङ्ग्रहः विरचितः इति अर्थः अस्तु इदानीं विद्याधरी इति व्याख्या इतोपि सुलभः अस्ति न्याय अध्ययने तत् एतदेव परिचयः अस्ति इदानीं तु न्याय अध्ययने सर्वेषाम् स्वागतम् मिलित्वा पठामः अवगच्छामः च विद्याधरीपुस्तकस्य पठनपद्धतिः का इत्युक्ते कश्चन पङ्क्त्यः वा परिच्छेदम् स्वीकृत्य एकैकशः पठामः तस्य प्रतिपादनम् च कुर्मः स्पष्टम् इति मन्ये अग्रे सरे सरेम प्रश्नः अस्ति चेत् कृपया पृच्छन्तु अन्य कोऽपि अस्ति वर्गे यस्य नाम नाम् न उक्तवती अस्तु तर्हि विद्याधरी इत्यस्य तत्र प्रथम चत्वारि पृष्टा पृष्टाः तेषां पि अस्ति इति मन्ये पुरतः केषाञ्चित् पुस्तकम् अस्ति परन्तु केषाञ्चित् पि डि एफ़् एव अस्ति इति मन्ये अस्तु अजितं महोदय अस्ति वा अस्मि भगिनि अस्तु कृपया पठति वा प्रथम अस्तु जगति अनेकानि वस्तूनि सन्ति पर्वताः नद्यः गृहाणि मनुष्य मनुष्याः इतरे प्राणिनः वनानि नगराणि इत्यादीनि ज्ञानेन बुद्धिः विरा, विरादा विशदा इति विशदा इति विशद बुद्धिः विशदा विचारसमर्थाः विचारसमर्था भवति परन्तु ते अनन्ताः अनेका दुःशकम् mm. किञ्चन वस्तु यत् तदाय तेषाम् ज्ञापनाय पूर्वाचार्यैः यत्नः कृतः यथा तत्र पट्टिका इदानीं पठ पत, पठामि वा भगिनि अथवा अवश्यम् अवश्यं यथा गुणः द्रव्यं केवलं के पठतु महोदय तस्य प्रतिपादनम् इदानीं केवलं पठनं गुणः उपरिस्तरे गुणः गन्धः शैत्यं औष्ण्यं स्पर्श स्पर्शः शब्दः सङ्ख्या संख्या ज्ञानं सङ्ख्या अधः स्थरे द्रव्यं पृथिवी जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः एतानि नववस्तूनि गृह्णीमः तेषु सर्वत्रपादयतु Uh, uh, जगति अनेकानि वस्तूनि सन्ति उदाहरणार्थं पर्वताः नद्यः गृहाणि मनुष्याः uh, अपि च नगरानी वनानी इत्यादीनि uh, वस्तूनि सन्ति जगति अस्तु uh, uh, तेषां ज्ञानेन किञ्चित् uh, विशकलनम् uh, आवश्यकम् कथं तद करणीयमिति तत् एका पट्टिका तत्र प्रदर्शयति तत्र एक वर्गीकरणम् इत्युक्ते क्लासिफिकेशन् अस्ति तदेव तत्र प्रतिपादनविषयः उदाहरणार्थं तत्र द्रव्यं पृथिवी जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति Uh, नव uh, वस्तूनि तत्र वि विरचितः अस्तु mm. uh, uh, तत्र सविशेषगुणः किम् इति वयं प्रायः uh, अग्रे mm, mm. uh, जानीमः खलु uh, अग्रे पठामः सम्यक् सम्यक् महोदय यथा भवता उक्तम् अत्र न्यायशास्त्रस्य विधिः कः इत्युक्ते पूर्वमपि उक्तं यत् आत्मज्ञानम् आत्मज्ञानज्ञानस्य साधनेन मोक्षप्राप्तिः कथम् इति इति एव लक्ष्यम् अस्माकं तर्हि आत्मज्ञानं कथं प्राप्यते साक्षात् प्राप्तुं न शक्नु शक्नुमः आत्मा इत्युक्ते कः इति इति प्रश्नाः उदे प्रश्नः उदेति तर्हि प्रपञ्चे यानि कानि वस्तूनि सन्ति तेषां विश्लेषणं तेषाम् अवगमनम् अवगमनम् अपेक्षते अत्र यच्चित्रम् अस्ति प्रदर्शनार्थम् अस्ति एतादृशं वर्गीकरणम् अस्ति न्यायशास्त्रे इति प्रदर्शनार्थमेव अत्र दीयते इत्युक्ते यानि वस्तूनि सन्ति तेषां श्रेणीकरणं वा वर्गीकरणं भवति न्यायशास्त्रे कश्चन कश्चन विशेषम् आदाय तेषां श्रेणीकरणं भवति तदनन्तरं तेषु तेषु के के के विशेषाः सन्ति इत्यस्य विचारः अपि भवति किमर्थं किमर्थम् एषा एषा रीतिः किमर्थम् एषा युक्तिः अजितमहोदय किञ्चित् वदति वा साक्षात् सर्वेषां विश्लेषणं न कर्तुं शक्नुमः वा किमर्थं यदा युक्ति इत्युक्ते यदा वयं किञ्चित् अन्वेषणं कुर्मः तथा वयं जानीमः प्रायः एक वस्तु अनेकानि वस्तूनि एक mm. वर्गे भवितुम् अर्हति इति mm. तस्य mm. गुण आधा आधारीकृत्य mm. तत् तत् ते वस्तूनि तानि वस्तूनि एकस्मिन् एग, वर्गे भविदुम अर्हति लाभः इत्युक्ते ते, ते वस् तानि वस्तूनि योजयित्वा वयं पठितुं श... श... श... शक्नुमः सौलभ्यं भवति सौलभ्यं सा, भवति नो चेत् प्रथमं पर्वतस्य विचारः तस्य अवगमनं तस्य विश्लेषणं तदनन्तरं नद्याः तदनन्तरं गृहस्य इति कोटिसहस्र यावन्ति भवति तेषां वस्तूनां विश्लेषणं तु बहु दुष्करं भवति बहु क्लिष्टकरं भवति तस्य निवारणार्थमेव एतादृशः एतादृशी रीति Uh, um, asti, न्यायशास्त्रे. अस्ति न्यायशास्त्रे अपि आप च अहं चिन्तयामि इदानीं नववर्गाः सन्ति खलु जगति कानिचन सन्ति ते तानि सर्वाणि नववर्गे स्थापितुम् अर्हति तादृशी वर्गीकरणं अस्ति येन जगति विद्यमाना विद्यमान् विद्यमानानि वस्तूनि सर्वाणि एतेषु अन्तर्भूतानि इत्युष्ये सप्तपदार्थाः ये सन्ति तेषु सर्वाणि सर्वाणि वस्तूनि अन्तर्भूतानि अस्ति अस्तु अग्रे पठेम के के पदार्थाः सप्तपदार्थाः इति अस्तु mm. आम् अग्रे ज्योति भगिनि अस्ति वा आं हा किञ्चित् पठति वा भगिनि एतानि um. नववस्तूनि इति अग्रिमे पुटे अस्तु एतानि नववस्तूनि कुण् वा तेषु सर्वत्र कश्चित् गुणः पृष्ठसङ्ख्या सप्तविं द्वाविं द्वासप्तति अवश्यं वर्तते गुणः इति वस्तु पृथिव्यां जले तेजसी इत्येवं सर्वेषु वस्तुषु वर्तते इति गुणः अनुगतं वस्तु अथवा पदार्थः अतः तमादाय एते नवपदार्थाह द्रव्यम् इति संज्ञां लभन्ते तथा च कञ्चनविशेषम् आदाय सः विशेषः येषु वर्तते तेषाम् एकां संज्ञां कृत्वा आचार्यैः पदार्थबोधनाय यत्नः कृतः hmm. किञ्चित् भवत्याः अवगमनं किम् इति वदतु भगिनि अस्तु तर्हि गुणः इति पृथिव्याम् अपि अस्ति जले अपि अस्ति तेजसी अपि अस्ति अतः सर्वेषु वस्तुषु वर्तते इति गुणः इति वर्त इति वदन्ति तमादाय एते नवपदार्थाः द्रव्यम् इति संज्ञां तर्हि किञ्चित् विशेषं गृहीत्वा तस्य विशेषं विशेषगुणं कुत्र कुत्र अस्ति तत् दृष्ट्वा वयं किञ्चित् किञ्चित् विशेषज्ञानं प्राप्तुं प्राप्तुं शक्नुमः समीचीनं भगिनी अस्तु तर्हि केषुचित् पदार्थेषु यथा भवत्या उक्तं कश्चन विशेषः वर्तते इत्युक्ते पृथिव्यां कश्चन विशेषः अस्ति इति दृष्ट्वा विशेषः अस्ति यस्मिन् कस्मिन् अपि कश्चन विशेषः अस्ति तेषां सर्वं सङ्गृह्य द्रव्यं यस्मिन् यस्मिन् कस्मिन्नपि कश्चन विशेषः भवति सः द्रव्यम् इति नामधेयः कृतः oh. hmm? अत्र um, गुणः अनुगतं वस्तु अथवा पदार्थः इत्युक्ते किम् न अवगतं uh, no, no, no. अन्य कोऽपि साहाय्यं करोति वा सरला भगिनी भगिनी अस्तिवा? वा प्रश्नः पुनः वक्तुं शक्नोति वा आम् अवश्यम् अवश्यं महोदय अत्र द्वितीयपङ्क्त्यां द्वितीयां पङ्क्त्याम् अस्ति गुणः अनुगतं वस्तु अथवा पदार्थः इति तस्य अर्थः कः सर्वेषां पदार्थानां गुणः गुणं भवितुम् अर्हति विना गुणं पदार्थ Um, पदार्था वर्ततुं वर्ततुं न शक्नुवन्ति इति अहं तादृशम् अवगतवान् अत्र अत्र तु द्रव्यस्य द्रव्यस्य वर्णनम् अस्ति अस्मिन् परिच्छेदे द्रव्यम् इत्युक्ते किम् इति द्रव्यम् इत्युक्ते यस्मिन् गुणः वर्तते गुणः अनुगतं वस्तु इत्युक्ते वस्तुः अस्ति तस्मिन् गुणः अवश्यं वर्तते इति स्थितिः वस्तु अस्ति चेत् तस्मिन् तर्हि गुणः वस्तुम् अनुगच्छति वा वस्तु गुणम् अनुगच्छति <laughs> गुणः वस्तुम् अनुगच्छति खलु वस्तु अनुगच्छति क्षम्यताम् वस्तु अस्ति चेत् गुणः अस्ति इति अत्र द्रव्यस्य व वर्णनं सर्वत्र गुणः अस्ति इति न परन्तु यस्मिन् गुणः अस्ति तद्द्रव्यम् इति अतः यद्द्रव्यमस्ति तत्र अवश्यं गुणः गुणः अस्ति गुणः वस्तु अनुगच्छति इति स्थितिः अस्तु सम्यक् जगन्नाथमहोदय भवान् पठति वा अस्तु अतः एकनिमिषं महोदय कुत्र अस्ति ओ अग्रिमवाक् अग्रिम पेराग्राफ् वा तत्र यः विशेषः गृहीतः सः बहुषु भवेत् एकस्मिन् वा भवेत् बहुषु भवति चेत् बहूनां सा संज्ञा यथा पृथ्वी द्रव्यमिति उच्यते जलमपि द्रव्यं समवायत्वं इति पदार्थः एकस्मिन्नेव वर्तते अतः एकस्यैव समवाय इति संज्ञा भवति अतश्च अनन्तानामपि पदार्थानाम् अनेन उपायेन निरूपणं सुशकं भवति अग्रिमपङ्क्तिमपि पठतु महोदय सङ्ग् सं, सङ्ग्रहादि ग्रन्थेषु सप्तपदार्थाः इति यः विभागः दर्शितः सः इमां रीतिं बुद्धौ निधायैव कृतः mm. तत्र यः विशेषग्रीतसभूषु भवेत्पङ्क्तिशः पठित्वा प्रतिपादयतु महोदय अस्तु तत्र यः विशेषः गृहीतः सः बहु भौ, बहुषु भवेत् एकस्मिन् वा भवेत् एकस्मिन् पदार्थे एकं गुणं भवितुम् अपि शक्नोति नो चेत् बहवः गुणान्यपि भवितुं शक्नुवन्ति अत्र गुणस्य गुणस्य विषयः न पूर्वस्मिन् परिच्छेदे कश्चन विशेषः अस्ति द्रव्ये विशे येन द्रव्यम् इति संया कृतः खलु इत्युक्ते विशेषः इति स्वीकुर्मः कश्चन विशेषः अस्ति द्रव्ये कश्चन विशेषः अस्ति तादृशम् hmm. um, अन्येषु वस्तुषु अपि कश्चन विशेषः अस्ति इति अस्ति अस्मिन् परिच्छेदे oh. बहुषु वा uh, एकः वा एकस्मिन् वा विशेषः अस्ति इति किन्तु विशेषः कः इति गुणं दृष्ट्वा एव वक्तुं शक्नुमः एतावत्पर्यन्तं गुणस्य परिचयः किञ्चित् अभवत् द्रव्यस्य परिचयः अभवत् परन्तु तादृशम् अन्ये पदार्थाः अपि सन्ति खलु आम् आम् एतावत्पर्यन्तं द्रव्यस्य परिचयः अभवत् पदार्थेषु अन्यतमः अस्ति द्रव्यम् गुणः अपि पदार्थेषु अन्यतमः अस्ति इति एतावत्पर्यन्तं तयोः परिचयः एव अभवत् न तु uh, अवशिष्टानां खलु परन्तु अवशिष्टानां परिचयः कथं भवति इति अस्मिन् परिचये अस्ति ओ oh, अस्तु अस्तु so. uh, mm -hmm. तर्हि यस्यापि uh, किमपि विशेषः अस्ति तस्य तस्य नाम द्रव्यम् इति वक्तुं शक्नुमः वा एत एषः एत, एत, वाक्ये एतद् वाक्यं नीत्वा यस्मिन् कस्मिन्नपि विशेषः अस्ति गुणरूपेण तदा तद् द्रव्यम् इति वक्तुं शक्नुमः खलु हा यद् पूर्वस्मिन् पुटे दृष्टवन्तः पृथिव्याम् जले तेजसी वायौ सर्वेषु कश्चन विशेषः अस्ति कश्चन गुणः अस्ति येन सामूहिकरूपेण ते तानि द्रव्याणि इति वक्तुम् शक्नुमः खलु इत्युक्ते द्रव्येषु गुणः इति विशेषः वर्तते इति खलु इत्युक्ते बहुषु पृथ पृथिव्यां जलेषु इत्युक्ते बहु बहुषु वस्तुषु तादृशविशेषः वर्तते तदा बहुषु वर्तते इति वक्तुं शक्नुमः आम् आम् परन्तु अग्रे समवायत्व बाहु, भवति चेत् बहूनां च संज्ञा सं बहूनां सा संज्ञा इत्युक्ते का संज्ञा इदानीं दृष्टवन्तः खलु तादृशी स्थितिः बहुषु वर्तते पृथिव्यां जले तेजसि आकाशे आत्मनि इति तर्हि तानि सर्वाणि संज्ञा का तेषां संज्ञा का तेषां नाम किम् द्रव्यम् इति खलु पृथ्वी इति द्रव्यं जलं द्रव्यं तेजः द्रव्यम् इति नवद्रव्याणि दृष्टवन्तः खलु एषु सर्वेषु कश्चन विशेषः अस्ति गुणः इति विशेषः अस्ति अग्रे यथा पृथ्वी इति उच्यते mm. जलमपि द्रव्यं समवायत्वं इति पदार्थः एकस्मिनेव एव वर्तते अतः mm. तर्हि एकस्यैव समवाय इति संज्ञा भवति mm. भवान् एव वदतु समवायत्वम् इति पदार्थः एकस्मिन्नेव वर्तते ओ कुत्र वर्तते समवाय जानामि ओके समवायत्वम् इति पदार्थः एकस्मिन् एव किं यथा एकस्मिन् एव द्रव्ये एव न समवाय इति पदार्थः ओ एकस्मिन् एव गुणे गुणं गुणे वर्तते वा न इत्युक्ते समवायः इति पदार्थं स्वीकुर्मश्चेत् समवाये समवायत्वं अस्ति ओ हा अस्तु Hmm? एकस्य शिवसमवाय इति न संज्ञा भवति अस्तु अतश्च hmm. अनन्तानामपि पदार्थानाम् अनेन उपायेन निरूपणं सुशकं भवति एतदुदाह hmm. उदाहरणं नीत्वा सर्वेषां पदार्थानां वयं निरूपणं कर्तुं शक्नुमः hmm. समीचीनम् इत्युक्ते कश्चन काचित् uh, um, युक्तिः आव, आवश्यकी भवति खलु yeah. अस्माकम् युक्तिम् उपयुज्य वर्गीकरणं uh, भवति वा पदार्थानां संज्ञाकरणं भवति येषु गुणः इति विशेषः वर्तते ओ ते तानि सर्वाणि द्रव्याणि इति तत्र संज्ञा भवति परन्तु तादृशी स्थितिः समवाये न समवायविषये नास्ति इत्युक्ते बहुषु समवायः समवायत्वम् अस्ति इति न एकस्मिन् अस्ति यत्र समवायः अस्ति तस्मिन् एव अस्ति इति कृत्वा तादृशी स्थितिः बिन्ना इत्येव इत्युक्ते अत्र अत्र विषयः अस्ति यत् भिन्न बिन, बिन, भिन्न भिन्नया रीत्या वर्गीकरणं भवति इति अस्तु hmm? भिन्नाः uh, पदार्थाः uh, सन्ति सप्तपदार्थाः सन्ति द्रव्याणि बहुनी सन्ति किमर्थम् इत्युक्ते गुणः इति विशेषः बहुषु वर्तते इति कृत्वा परन्तु mm. समवायः इति पदार्थम् स्वीकुर्मश्चेत् समवाये एव समवायित्वम् अस्ति पुनः अभावः कुत्र अस्ति कर्म कुत्र भवति इति स्थितयः भिन् Oh, hmm. um, ग्रन्थेषु सप्तपदार्थाः पदार्थाः इति यः विभागः दर्शितः सः इमां रीतिं बुधौ निधायैव कृतः अस्तु uh, पूर्वस्मिन् पुटे यत् पृथ्वीजनं तेजः वायुः आकाशः कालः दिक् आत्मा मनः सर्वं सर्वेषां निरूपणं यादृशम् अभवत् mm. तादृशमेव अन्येषां पदार्थानां स्वीकृतिं कृत्वा वयं कर्तुं शक्नुमः इत्यर्थः समीचीनं समीचीनं महोदय अस्तु अग्रे अस्तु क्रमः कः इति पश्यामः क्रमः कः इति महोदय पठति वात्यायनभाष्यादिग्रन्थे एवं वर्णयन्ति प्रथमतः अतः लक्षणम् अतः परीक्षा इति उद्देशो नाम नामनिर्देशः द्रव्यम् इति कथनं गुणः इति कथनम् अत्र द्रव्यं कथं ज्ञातव्यम् इति न निरूप्यते केवलं संज्ञा उच्यते अतः अयम् उद्देशः केन वस्तुना द्रव्यं ज्ञातव्यं गुणेन यत्र गुणः तद्द्रव्यमिति कथनं द्वितीयम् तदेव लक्षणम् इति उच्यते एकं ग्रन्थः अस्ति वात्स्यायनभाष्य इति ग्रन्थः इत्यादिग्रन्थेषु सप्तपदार्थाः वर्णनम् अस्ति तत्र प्रथमतः उद्देशः अस्ति अनन्तरं लक्षणम् अस्ति उद्देश्य इत्युक्ते नामनिर्देशः द्रव्यमिति द्रव्यम् इत्युक्ते किम् इति तत्र कथनम् अस्ति अपि च गुणः गुणस्य अपि कथनम् अस्ति अत्र द्रव्यं कथं ज्ञातव्यम् इति न निरूप्यते कथं द्रव्य आगच्छन्ति अत तस्य निरुपमं निरुप् निरूपणं तत् तत्र न नास्ति केवलं संज्ञा अस्ति द्रव्य इति संज्ञा अतः अयम् उद्देशः अतः तत् उद्देशः इति नाम निर्देशः दत्तमस्ति केन वस्तुना द्रव्यं ज्ञातव्यम् कि किञ्च् किञ्चिदपि वस्तुं द्रश् तत् तत् तत्तु द्रव्यम् अस्ति वा न वा इति कथं ज्ञातव्यं तस्य गुणेन वयं वयं वस्तु अथवा द्रव्यम् इति द्रव्यं वा न वा इति जानितुं शक्नुमः यत्र यत्र गुणः भवति तत्र द्रव्यम् इति वयं कथनं कत, कर्तुं शक्नुमः अथवा लक्षण तस्य नाम लक्षणम् इति अपि अस्ति तदेव hmm. लक्षणं hmm. समीचीनं महोदय यत, यत, ग्रन्थेषु विशेषतया वात्स्यायनभाष्यग्रन्थेषु एका संविधा अस्ति इत्युक्ते संविधा का इति वन्यते, प्रथमं प्रथम भागत्रयम् अस्ति प्रथमे भागे उद्देशः इति उद्देशः इत्युक्ते केवलं पदार्थानाम् उल्लेखनम् अस्ति पदार्थाः एते पदार्थाः सन्ति इत्येव नामकरणमेव भवन्ति इत्युक्ते द्रव्यम् एते एतानि द्रव्य एतानि द्रव्याणि एते गुणाः कर्म पञ्चकर्माणि इत्यादयः परन्तु तेषाम् अवगमनं वा तेषां विश्लेषणम् नास्ति अस्मिन् भागे द्वितीये भागे इत्युक्ते लक्षणभागे प्रत्येकं प्रत्येक प्रत्येकम् um, पदार्थस्य लक्षणम् अस्ति द्रव्यम् इत्युक्ते किम् द्रव्यस्य अर्थः कः द्रव्यस्य लक्षणम् किम् कथम् एतद् द्रव्यम् इति वक्तुं शक्नुमः कथम् अयम् गुणः इति वक्तुं शक्नुमः कश्चन कश्चन लक्षणम् स्वीकृत्य एव वयम् वक्तुम् शक्नुमः इति अस्मिन् भागे अस्ति अस्तु hmm. hmm? Um, um, हरिमहोदयः अस्ति वा हरि हरि रवि महोदय um, अस्तु बाग् भागत्रयम् इत्युक्ते uh, के के सन्ति बागाः समीचीनं पर उद, परीक्षा लक्षणं परीक्षा इति भाग भागत्रयम् अस्तु अग्रे पठति वा गुणः इति पदार्थः द्रवे वर्तते न न अस्ति चेत् सर्वत्र वर्तते न वा इति इत्यादि विचारः परीक्षा तया च परीक्षया विचारः परिपूर्णः भवति उद्देश्यभागः लक्षणभागः इति द्वयमेव वर्तते न तु परीक्षाभागः बालभोज भोजनाय प्रवृत्तात् प्रवृत्वात् श्लोकमपि पठतु निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रह तदादो अन्नं भट्टः ग्रन्थस्य निर् निर्विघ्नपरिसमाप्तये मङ्गलाचरणं कृत्वा सप्तपदार्थान् नाम्ना निर्दि निर्दिशति द्रव्य द्रव्य इति आ, अत्र ग्रन्थकार वदति परीक्षा कस् कोऽपि गुणः पदार्थे पदार्थे वर्तते वा न वर्तते इति चिन्तनं च आ, सर्वत्र वर्तते अथवा ए एकस्मिन् एक क्षेत्रे एव वर्तते इत्यादि विचारः एषः विचारः परीक्षा अस्ति परीक्षणमपि पर तर्कसङ्ग्रहे केवल उद्देश्यभागः च लक्षणभागः अस्ति तत्र वस्तूनां पदार्थानां केवल नामनिर्देशः अस्ति च तेषां लक्षणं न तु परीक्षाभाग किमर्थं परीक्षाभागः प्रायः अन्य न्यायग्रन्थेषु अपि यतः बालानां बाला कृते अस्ति अस्ति इति कृत्वा प्रायः जटिलः भवति परीक्षा इति कृत्वा केवलं भागद्वयम् अस्ति हा शोकस्य अर्थः कः ्लोकः खलु अत्र ग्रन्थकार्रहस्य उद्देश्यम् अपि कथयति च गुरुवन्दना अपि करोति ईशं मनसि निधाय तं स्मृत्वा गुरुवन्दनं कृत्वा तर्कसङ्ग्रहस्य आरभः भवति आरम्भः भवति इति आरम्भः भवतु इति, इति. यतः पूर्वम् उक्तं मया बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः इति तेषां लगत। लगत। ये व्याकरणं व्याकरणज्ञात्वा येषां व्याकरणज्ञानम् अस्ति च ग्रही च ज्ञानं ग्रह ग्रहीतुं शक्नोति ते बालाः समीचीनं बहु समीचीनं महोदय अस्तु तदेव अस्ति अत्र अग्रे शशिकिरणो भगिनि इदानीं वयं तृतीयपुटे स्मः खलु द्रव्यगुणकर्मसामान्यविशेष तमवाय भावः सप्तपदार्थाः द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इमे सप्तपदार्थाः तत्र पदार्थो पदार पदार्थोद दिशे नामनिर्देशे आदौ द्रव्यं निर्दिष्टम् कुतः यतः इतरे सर्वेपि द्रव्यमाश्रित्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते द्रव्यस्य उपरि वर्तते इति ज्ञायते यथा ये यज्ञदत्तः आसने वर्तते इत्युक्तौ यज्ञदत्तः उपरि आसनम् अधः भवति इति ज्ञायते तत्र आसनं यज्ञदत्तस्य भारं वहति hmm. अस्तु प्रथमतया सप्तपदार्थाः के के इति वदतु महोदय तदनन्तरम् अस्माकं न्यायशास्त्रस्य पारिभाषिकरूपेण प्रथमः परिचयः भवति पदार्थविषये अत्र सप्तपदार्थाः निर्दिष्टाः द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इति सप्तपदार्थाः अनन्तरं तत्र लिखितमस्ति तत्र पादार्थोद्दिशे नामनिर्देशे आदौ द्रव्यं निर्दिष्टम् अस्मिन् पदार्थानां प्रथमतः लिखितमस्ति द्रव्यम् इति किमर्थम् इत्युक्ते तत् सर्वे सर्वासु पदार्थेषु प्रथमतः तदेव आगच्छति इति सर्वेषां पदार्थानां सह एव आधारः स्तम्भः इति mm. समीचीनम् कुतः इत्युक्ते किम् इत्युक्ते भवान् अवगच्छति एव यतोहि उत्तरं दत्ताम् भवताम् अत्र ग्रन्थकारः वदति किमर्थं द्रव्यम् इति पदं प्रथमं निर्दिश्यते अनन्तरम् अन्याः पदार्थाः सन्ति इति किमर्थं द्रव्यम् प्रथमं लिखितम् इति तत्र प्रश्नः समीचीनं कुतः इत्युक्ते किमर्थम् इति अत्र बहु बहु समीचीनं महोदय सर्वे पदार्थाः द्रव्यम् आश्रिके एव तिष्ठन्ति इत्युक्ते द्रव्यस्य आधारेण एव सर्वे वर्तन्ते इति अग्रे अनन्तरं तत्र लिखितमस्ति तत्र अस्ति विशेषः द्रव्ये गुणः तिष्ठति इति यदि उच्यते तर्हि द्रव्यम् अधः वर्तते गुणः द्रव्यस्य उपरि वर्तते इति ज्ञायते इत्युक्ते अत्र गुणः द्रव्यम् आश्रयति अतः द्रव्यस्य उपरि गुणस्य विभाजनं भवति इत्युक्ते प्रथमं य यत्किमपि वस्तुं वयं प्रथमं तत् द्रव्यमिति ज्ञातुं शक्यते अनन्तरं गुणः आगच्छति प्रथमं द्रव्यमिति विभजनं कृत्वा अनन्तरं गुणस्य विषये चर्चां कर्तुं शक्यते परन्तु द्रव्यस्य अभिज्ञानं कथं भवति प्रथमम् पूर्वं वयं दृष्टवन्तः खलु यस्मिन् गुणः अस्ति आम् गुणः अस्ति चेत् द्रव्यमिति द्रव्येषु गुणः इति विशेषः अतः प्रथमं द्रव्यम् इति वक्तुं शक्यते अपि तु अन्ये पदार्थाः अपि द्रव्ये एव सन्ति इत्युक्ते कर्म सामान्यम् विशेषः समवायः अभावः एते अपि द्रव्ये एव सन्ति इति कृत्वा द्रव्यम् आधारः भवति सर्वेषां पदार्थानाम् आधारः भवति अत्र सामान्यतया न्यायशास्त्रे प्रथमं लौकिक उदाहरणं दीयते अस्माकम् अवगमनार्थं लौकिक उदाहरणं दीयते तम् आदाय क्लिष्टकरः विचारः प्रतिपाद्यते अत्र किम् अस्ति उदाहरणं अत्र उदाहरणं दत्तमस्ति यज्ञदत्तः आसने वर्तते अत्र यज्ञदत्तः इति एकः पुरुषः सः आसने आसनस्य उपरि आसनस्य उपरि सः इदानीम् उपविशति इति mm. प्रथमतः आसनम् आवश्यकम् अनन्तरम् आसनस्य उपरि यज्ञदत्तः उपविष्टवान् इति इत्युक्ते सः अत्र सः इदानीम् अस्ति अतः प्रथमम् आसनस्य विषये आधारः अनन्तरं तस्य आधारस्य उपरि पुरुषस्य यज्ञदत्तस्य विषये उक्तवान् उक्त अत्र लिखितमस्ति समीचीनं समीचीनम् एतत्तु उदाहरणरूपेण दत्तम् अस्ति अग्रे किम् उच्यते इति पश्यामः समीचीनं महोदय विजया हेतिराजन् भवती वक्तुं शक्नोति वा श्रूयते वाधार आधेयभावव्यवस्थापनम् अत्र इदं कल्पयामः आसनं प्राणी प्राणी इति तर्हि तत् आसनम् इदं चिन्तयेत् अहं यज्ञदत्तस्य भारं वहामि इयं भारवहनस्य चिन्ता एव अधिकरणता आधारता इति वा उच्यते अत्र अस्तु अस्तु भगिनि यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति इयं चिन्ता एव यज्ञदत्ते विद्यमाना अधेयता इति उच्यते आधार आदेयभावव्यवस्थापनम् अत्र आधार आदेय भावः किं किमस्ति किम तत् तस्य व्यवस्थापनं भवति अस्मिन् परिच्छेदे अस्ति कल्पयामः आसनं यत यत् पूर्वं यथा उदाहरणम् आसीत् यज्ञ तथा आसने वर्तते तत् इदानीं ग्रन्थकारः लिखति तत् आस् आसनं प्राणी अस्ति तस्य तत् तथा सः प्राणी आसनं तत् प्राणी आसनं तत् चिन्तयति अहं यज्ञदत्तस्य भारं वहामि इदानीम् आसनं चिन्तयति तत्र यज्ञदत्तस्य भारं वहामि इयं भार भारवहनस्य चिन्ता एव अधिकरन्ता या, या, या, या, या, या, या, या, आसनः अधः अस्ति यज्ञदथा आसनस्य उपरि अस्ति तत् यज्ञ यथा आसनम् आसनः आसनं चिन्तयति अहं यज्ञ भारं वहामि सः एव अधिकरणता अस्ति तत् नामकरणम् आधारता अस्ति आसने आधारता अस्ति अधिकरणता अस्ति यथा यथा आसनः आसनः यज्ञदत्तस्य भारम् अव वहति तत्कारणात् अधिकरन्तः सः एव आसनस्य चिन्ता एव अधिकरन्त उच्यते आधारता उच्यते यज्ञिदत्तः चिन्तयति अहं भारं स्थापयामि इदानीं यज्ञिदत्तः यः आसनस्य उपरि उपविशति सः चिन्तयति भारं स्थापयामि पूर्वम् आसनं तो भारं वहति परन्तु इदानीं तु यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति इयं चिन्ता एव यत् विद्यमान आधयिता इति उच्यते यत् अत्र यज्ञदत्तः आसनस्य उपरि उपविशति सः चिन्तयति अहं भारं स्थापयामि तत् का कारणात् तस्य यज्ञदत्तः तस्य आधयिता तस्मिन् आधयिता अस्ति यज्ञदत्तस्य यज्ञदत्ते आधैता अस्ति आसने अधिकरण अस्ति आधारिता अस्ति समीचीनम् अत्र अधिकरणं तु आसनं यत्र यज्ञदत् यस्मिन् यज्ञदथा उपविशति आसम् अधिकरणम् अस्ति आदेयता तुिदत्ते अस्ति यज्ञ आदेयः अस्ति आदेयः अस्ति इदानीम् अधिकरणं जानीमः आदेयः जानीमः अधिकरणता वा आदेयता संक्षिप्तरूपेण किम् अस्ति अधि, अधिकरणता तस्मिन् अधि, अधिकरणे यः गुणः अस्ति सः अधिकः गुणः इति न गुणः इति विश, कश्चन विशेषः द्रव्ये एव भवति खलु परन्तु अत्र तादृशी तादृशी चिन्ता इति यद्वदामः तद् भावः कश्चन भावः अस्ति आधेयता वा अधिकर् राजेन्द्रमहोदयः अस्ति वा अधिकरणता वा आधेयता कश्चन भावः अस्ति अधिकरणे विद्यमानः भावः अस्ति अधिकरणताधेये विद्यमानः भावः आधेयता इति उच्यते सुलभतया कश्चन प्राणिः अस्ति चेत् तत्र प्राणि अस्ति चेत् तस्मिन् या चिन्ता भवति सा एव यज्ञ यग्यादत, यज्ञ ददतु चेतनः एव तस्मिन् mm -hmm. का का चिन्ता अस्ति तस्मिन् अहं भारं स्थापयामि स्थापयामि इति uh, यदि आसनं प्राणि प्राणी इति um, mm -hmm. um, नपुंसकलिङ्गपदम् अस्ति नकारान्त प्राणिन् इति नपुंसकलिङ्गपदम् अस्ति uh, तस्मिन् का चिन्ता भवति अहं भारं वहामि हा वहामि इति इति अधिकरणता या चिन्ता अस्ति सा आधेयता इति सुलभरूपेण अत्र प्रतिपादनम् अस्ति अस्तु धन्यवादः महोदय अग्रे uh, कोपि अस्ति वा यस्य नामना न आहूतवती जायते महोदय मङ्गेशमहोदय विजय हेतिरजन् हा अस्ति वा भगिनी हा कृपया अस्ति पठतु पठतु यज्ञदत्तं विहाय कच्चित् अचेतनः वक्ष्यमाणः सङ्ख्यारूप गुणः उपरि भवति चेत् अपि सः गुणोऽहं भारं स्थापयामि इति चिन्तयति इति आलोचयामः अतः तादृशे पदार्थे आदेयता भवति तथा आसने अधिकरणता वर्तते प्रकृते अपि द्रव्यम् अधः अस्ति गुणः च उपरि अस्ति इति उक्तौ द्रव्ये अधिकरणता गुणे च आदेयता अस्ति इति आयातम् पर्याप्तं वा इदानीं यज्ञदत्तं विहाय कचित् अचेतनह वक्ष्यमाणः अचेतनह तत्र संख्या रूप संख्यारूपगुणः उपरि भवति चेत् अपि सः गुणोः भारं स्थापयामि इति चिन्तयति इति आलोच्यामः आलोचयामः गुणः उपरि भवति चेत् गुणः तत्र गुणः अहं वारं स्थापयामि तत्र अधिकरणता इति चिन्तयति आलोचयामः इति अधिकरणता गुणः तत्र अधिकरणता एवं कथं गुणं गुना, गुणः कुत्र अस्ति यज्ञदत्तस्य स्थाने गुणः अस्ति खलु आसनं तु अस्ति अधः आसनम् अस्ति तस्मिन् उपरि यज्ञदत्तः उपविष्टः आसीत् इदानीं तु गुणः अस्ति वक्ष्यमाणसङ्ख्यारूपगुणः इत्युक्ते अग्रे पठामः सङ्ख्याविषये सङ्ख्या इति गुणः अस्ति यदि अचेतन आ, पंचे पंचे था था। संख्या पञ्च इन्द्रियाणि पञ्चभूतानि एतत् वार्विंशतिगुणेषु अन्यतमः अस्ति सङ्ख्या केवलम् उदाहरणत्वेन एव सङ्ख्या इति स्वीकृता अस्ति परन्तु यत् यत्किमपि भवतु यस् कश्चन गुणः यत् यत्कोपि गुणः भवतु यः कोऽपि गुणः रूपं वा किं चतुर्विंशतिगुणेषु रूपं रसः अस्ति रसः जले अस्ति दर्श्यां हा हा हा परन्तु यः कोऽपि गुणः भवतु चिन्तयति अहं भारम् स्थापय स्थापयामि इति चिन्तयतिकरणता कुत्र आदेयता इदानीं वदतु भगिनी स्थापयति तत् किं आसनम् एव भार भारं वहामि भारं वहामि इति सा चिन्ता अस्ति तत् किं स्थापयति उपरिष्टात् यज्ञदतः एव यज्ञदत् वा गुणः खलु तर्हि गुणः एव आदेयः आदेयः तत्र अतः तादृशपदार्थे आदेयता भवति आदेयता इत्युक्ते एतत् साधनमेव आधारं तत्र अतः hmm? तादृशपदार्थे आदेयता भवति आदेयता आदे भवति तदा आसने अधिकरणता वर्तते समीचीनं सप्तमी समीचीन। आद... एव तत्र वा... वा... शक्नुमः श... श... वयं वदामः अधिकरणे सप्तमी आद, तत्र तथा आसने अधिकरणता वर्तते समीचीनम् अपि अत्र तथा आसने अधिकरणता आसीत् अहं भारं वहामि इति अधिकरणता चिन, चिन्ता समीचीनम् इदानीं भवती वदतु भगिनी आ, आ, न्याय न्यायलोके न्यायभाषया न्यायभाषया कुत्र किम् अधिकरणं किं कः आदेयः आदे ये ये आदे... इदानीं तु अस्माकं विषयविषयद्वयम् अस्ति खलु द्रव्यं गुणः इति द्रव्यं, द्रव्यं, द्रव्यं तत्र पृथिवी न न द्रव्यम् अधिकरणं वा आदेयः द्रव्यमधिकरणं तु गन्धः इति अधिकरणं तु आसनम् आदयः आस तु आसनम, यज्ञदतः अस्तु द्रव्यगुणस्य द्रव्यगुणस्य पृथिवी द्रव्यं एतत नवगुणाः सन्ति खलु सर्वेषु गुणः वर्तते भगिनि भा, केवलं प्रश्नः अस्ति द्रव्यम् अधिकरणं वा आदेयः आदेयः पुनः आदेयः नास्ति वा भवती वदतु द्रव्यम् अस्ति तस्मिन् mm. उपरि गुणः उपविशति खलु अतः पृथिवी द्रव्यम् अधिकरणता द्रव्यम् अधिकरणं तस्मिन् अधिकरणता गुणः गुनह... गुणः सन्ति तत्र गुणः आधेयः उ... तस्मिन् आधेयता खलु गुणः आधेयः हा गुणः आदेयः द्रव्यम् अधिकरणं समी अधिकरणता एतत, एतत हा समीचीनम् एतत् एतत् स्पष्टीकरणार्थमेव अस्माकम् उदाहरणमस्ति यज्ञगतः आसने उपविष्टः उपविष्टः अस्तु सम्यक् मङ्गेशमहोदयः अस्ति वा जयन्त् महोदय अस्ति वा सरला भगिनी अन्य कोऽपि अस्ति वा हरिमहोदयः अस्ति वा आसने अधिकरणता वर्तते इत्यमुं विषयं लघुनामुपायेन कथं निरूपयामः तत्र निष्ठ इति वर्ति इति पदद्वयम् उपकरोति अतः आसननिष्ठा आसन आसनवर्तिनी अधिकरणता इति वाक्यद्वयं ज्ञातम् तद्वदेव यज्ञदत्तनिष्ठ यद्ण, आधेयता यज्ञदत्तवर्ति आधेयता इति च वाक्यद्वयं आसने अधिकरणता वर्तते इति सूक्ष्मरूपेण वा लघुरूपेण कथं वदामः तत्र पदद्वयम् उपयुज्य mm. इति पदकम् उपयुज्य आम् आसननिष्ठा अधिकरणता आसनवर्तिनि अधिकरणता इति वाक्यद्वयं जातं यज्ञदत्तनिष्ठा आधेयता यज्ञदत्तवर्ति आधेयता अत्र कस्य दृष्ट्या किम् अधेयता कस्य दृष्ट्या किम् अधिकरणता इति पदद्वयं सूचयति निष्ठा अस्ति hmm. आधेयता। अधेयता वर्ति अस्ति ओ न तथा न्यायवाचि शब्दौ एव निष्ठ वा वर्ति यत्किमपि अस्ति अस्ति आमामाम् Uh, निष्ठ इत्युक्ते यस्मिन् अस्ति अस्मिन् अस्ति इति भावः निष्ठः खलु अस्तु यज्ञदत्तदृष्ट्या अधेयता वा यज्ञदत्तदृष्ट्या दत्तदृष्ट्या दृष्ट्या एव निष्ठा वर्ति अस्तु uh, अग्रे अग्रे पश्यामः वर्ति वा निष्ठः कुत्र कुत्र भवति इति अत्र वाक्यमस्ति यज्ञदत्तनिष्ठ आ यज्ञदत्त तु आदेयः वा गुणः आदेयः इति कृत्वा अस्माकं वाक्यं किं भवति यज्ञदत्तनिष्ठतं न कः आदेयः अत्र यज्ञदत्त वा गुणः वा तरी आ, हा तर्हि वाक्यं किं भवति न्यायभाषया वाक्यं किं भवति यज्ञदत्ता आसने तिष्ठति वा गुणाः द्रव्ये तिष्ठति इदानीम् अधिकरणता वा अधेयतायाः वर्णनं कथं क्रियते इति कुत्र कुत्र भवति अधियः आधे, द्रव्यः अधिकरणं व्यम् hmm, अधिकरणम् इदानीं मम प्रश्नः अस्ति अधिकरणता कुत्र अस्ति तर्हि भवत्याः वाक्यं न्यायभाषया किं भवति oh, अधिकरणता कीदृशी अधिकरणता इति प्रश्नश्चेत् भवत्याः oh, अधिकरणता वा एवं वा अधिकरणं भवती एव उक्तवती खलु द्रव्यमधिकरणम् इति द्रव्यम् अधिकरणम् आम् अतः द्रव्यनिष्ठ अधिकरणता हा तदेव खलु द्रव्यनिष्ठ अधिकरणता वा द्रव्यवर्षीय अधिकरणता तदेव तदेव अस्तु इदानीम् आगतं समीचीनं जगन्नाथमहोदय इदानीम् आदेयत कीदृशी आदेयत इति चेत् उत्तरं किम् एकनिमिषः अधौ पुनः कृपया प्रश्नः कीदृशी आधेयत ज्योतिभगिन्या उक्तम् आसननिष्ठ वा द्रव्यनिष्ठ निष्ठ अधिकरणता इति मम प्रश्नः अस्ति कीदृशी आधेयता ज्योतिभगिन्याः वाक्यं पुनः एकवारं तस्मात् अहम् उत्तरं ददामि भगिनी वदतु प्रायः कथायः कः महोदय आधेयः एतद् आधेयः यज्ञदत्तः आधारं आसनम् आसनं तर्हि आधेयता कुत्र अस्ति आधेयता यज्ञदत्ते अस्ति um, uh, आधा, आधारता आसने अस्ति न्यायभाषया कीदृशीष्ठा आसननिष्ठा आधेयताष्ठ आधेयत एवम् आसनं तु अधिकरणं खलु आमाम् ओ एकम् एकं स्वीकरोतु एकस्मिन् समये एकमेव स्वीकरोतु तर्हि आसनम् अस्ति अधिकरणं तर्हि आसने अधिकरणता आस, समीचीनं तावदेव आधेयनिष्ठेयता समीचीनम् आधेयः कः अत्र लौकिक उदाह यज्ञ वाक्यं भवति तावदेव इदानीं न्यायशास्त्रस्य प्रथमपारिभाषक परिचयः अस्ति अधिकरणता अधेयता इति कुत्र अधिकरणता कुत्र अधेयत वाक्यद्वयं पुनः पुनः कृपया मनसि वदन्तु सर्वे यज्ञदत्तनिष्ठेयताष्ठता द्रव्य मेहन् महोदय वदतु द्रव्यगुणविषये पुनः पुनः कृपया स्मरन्तु निष्ठवर्ति एतौ शब्दौ पुनः पुनः आयातौ अस्माकं पठने अस्तु मेन् महोदय कृपया पठति वा अग्रिमपरिचयं प्रश्न एतस्य वर्षस्य चिन्तनवर्ग भवति वा हा अवश्यं सोमवासरे भवन्तनवर्गः पुनः एतस्य पुनस्मरणं भवति सोमवासरे परन्तु प्रायः सोमवासरस्य वर्गे नूतनाः जनाः अपि आगमिष्यन्ति इति मन्ये तत्र वयमपि अवश्यम् आगच्छतु अवश्यम् अवश्यं अग्रे अस्ति किल अस्माकं वर्गस्य अपेक्षया भगिनी पुनः पृच्छतु अस्माकं वर्गस्य अपेक्षया अग्रे अस्ति इति मन्ये अग्रे, अग्रे, अग्रे, अग्रे, अग्रे ती न भगिनि ओ अस्तु सोमवासरस्य वर्गः एतं वर्गम् अनुगच्छति तत्र आधेयता अधिकरणता प्रतियोगित्वादयः वक्ष्यमाणाः वा साकाङ्क्षाः ससम्बन्धिकाः पदार्थाः साकाङ्क्षः इत्यस्य कः अर्थः यम् श्रुत्वा एतत्सम्बन्धी अन्यः कः इति जिज्ञासा सर्वदैव भवति यथा रामः पुत्रः इत्युक्तौ कस्य इति जिज्ञासा जायते अत्र अध्येयता अधिकरणता प्रतियोगित्वादयः वक्ष्यमाणाः वा साकाङ्क्षाः स्वसम्बन्धिकाः पदार्थाः अत्र प्रतियोगित्व प्रतियोगित्वादयः इत्युक्ते तदपि पारिभाषिकशब्दः एव प्रतियोगिता प्रतियोगित्वम् इत्यादयः ते अग्रे वक्ष्यमाणाः सन्ति परन्तु आधयता अधिकता तु वयं जानीमः खलु अधीयता अत्र ये सर्वे शब्दाः प्रातिभाषिकशब्दाः दत्तवान् वा पदार्थाः सुसम्बन्धिकाः शाकाङ्क्षाः वक्ष्यमाणाः प्रतियोगित्वाः इति इत्युक्ते केवलं तत्तु शत्रुप्रत्ययः अस्ति अग्रे वक्ष्यते इति आम् आम् आम् अत्र hmm. साकाङ्क्षः इति कः अर्थः पृच्छति अत्र यं श्रुत्वा एतत् सम्बन्धि अन्यः कः इति जिज्ञासा सर्वदैव भवति अतः इति अत्र एकम् उदाहरणं दत्तवान् रामः पुत्रः कस्य इति जिज्ञासा जायते पुत्रः कस्य पुत्रः अस्ति रामः कस्य पुत्रः अस्ति इति जिज्ञासा भवति अतः साकाङ्क्षा इति संज्ञा अस्ति रामः पुत्रः इति साकाङ्क्षाः किमित्युक्ते श्रमः पुत्रः इति श्रुत्वा वयं जिज्ञासा जिज्ञासा भवति कस्य पुत्रः इति अतः hmm. साकाङ्क्षा hmm. इति एकं प्रातिभाषिकशब्दः साकाङ्क्षा साकाङ्क्षाः शब्दाः इति इति वदन्ति इत्युक्ते पुत्रः इति वदामि चेत् कस्य पुत्रः इति प्रश्नः उदेति खलु अतः यस्य कथनेन अन्यस्य सम्बन्धः चिन्तने भवति चिन्तने उदेति तौ ससम्बन्धिकौ शब्दौ इति उच्यते अत्र ससम्बन्धिकौ कौत्रः अपि तु रामः पिता इति खलु पुत्रः अस्ति रामः पुत्रः कस्य पुत्रः इत्युक्ते तस्य पिता भवेत् इति चिन्ता अस्ति खलु अतः पुत्रः पिता इति साकाङ्क्षिका साकाङ्क्षिकौ वा सत्सम्बन्धिकौ इति इत्युक्ते श्यामः पिता इति अहं वदामि चेत् अस्तु कस्य पिता इति प्रश्नः उदेति खलु वैभरीत्या अपि भवति पिता अस्ति चेत् हा तस्य पुत्रः भवेत् पुत्रः अस्ति चेत् तस्य पिता भवेत् इति तयोः सम्बन्धः अवश्यम् उदेति तस्मिन् समये खलु अस्तु इतोपि पञ्चनिमेषाः निमेषानि वयं पठितुं शक्नुमः वा विलम्बः जातः वा भारततः ये सन्ति पठितुं शक्नुमः खलु अस्तु हा अग्रे शशिकिरन् अस्ति वायः नास्ति विजया भगिनी विजया भगिनी अग्रे अन्य कोऽपि अस्ति वा कः आं मेहुल् महोदय भवानेव पठितवान् खलु अहं पठामि मातः कथं का अस्ति विजयभगिनी अत्र अतः पुत्रत्वं पितृत्वं भार्यात्वम् इत्यादयः सम्बन्धिकाः पदार्थाः तथा एव आदेयता अधिकरणता इत्यादयः अपि सम्बन्धिकाः यज्ञदतः आदेयः इत्युक्तौ कस्य इति जिज्ञासा भवति आसनमधिकरणं इत्युक्तौ कस्य इति जिज्ञासा भवति अतः एते अपि आदेयता अधिकरणता इत्यादयः सा अन्यं पदार्थं सर्वदा अपेक्षन्तु अपेक्षन्ते अत्र आ, आ, आ, आ, सा सम्बन्धिकाः इत्युक्ते पुत्र तु तस्य स्थाने पिता आगच्छति पितृत्वं भार्यात्वम् इत्यादयः सः सम्बन्धिकाः एव पदार्थाः एव सम्बन्धिकाः पदार्थाः तत एव आदेयता आदेवयता अत्र अधिकरणता इत्यादयः अपि सा सम्बन्धिकाः तत्र वयं पूर्वमेव जानीमः आदयता आदयतः आदयता यज्ञदतः अस्ति यज्ञदत्तः आदेयः इत्युक्तौ कस्य इति जिज्ञासा भवति कस्य इति जिज्ञासा भवति इत्युक्ते इत्युक्ते किम् इत्युक्ते मनसि प्रश्नम् उदयति जिज्ञासा इत्युक्ते कौतूहलं भवति अहं ज्ञातुम् इच्छामि खलु ज्ञातुम् इच्छामि यञ् यज्ञदतः आदेयः इत्युक्तौ कस्य इति जिज्ञासा भवति खलु कस्य आदेयः यज्ञदतः एव आदेयः परन्तु कस्य आदेयः कस्मिन् उपविशति अस्तु इदानीं सरलतया अतः यज्ञतः आदयः इति अहं वदामि चेत् हा तर्हि अधिकरणं किम् इति प्रश्नः उदेति खलु आसनमेव अधिकरणता तत्र इत्युक्ते अत्र स सम्बन्धिकविषयः विषयः आसनमसम्बन्धिकौ नम... आसनम् अधिकरणम् इत्युक्तौ तस्य इति जिज्ञासा भवति इति तत्र आसनं कस्य इति जिज्ञासा कस्य कस्य अधिकरणम् इत्युक्ते अधिकरणम् अस्ति चेत् आदेयः अवश्यं भवेत् खलु एव आदेयः एव तत्र एते अपि आदेयता अधिकरणता इत्यादयः सम्बन्धिकाः अन्यं पदार्थं सर्वदा अपेक्षन्ते इत्युक्ते अहम् आदेयः इति एतत् आदे एषः आयम् आदेयः इति वदामि चेत् वादेयः इत्युक्ते अस्ति वा इति प्रश्न उदेति खलु तर्हि गर्दभः अस्ति चेत् गर्धभः भारं वहति वा इति आ, आ, आ, आ, चिन्ता खलु तथैव यः भावः अस्ति अधिकरणे भावः आदेये अस्ति तौ अपि ससम्बन्धिकौ आदेयत ससम्बन्धिकाः समीचीनं राजेन्द्रमहोदय हम इदानीं कथम् आधेयता अधिकरण सम्बन्धिकः इति उक्त्वा चित्रस्य वर्णनं करोतु कृपया महोदय अस्तु अधेयः यज्ञिदत्तः यज्ञदत्ते अधेयता अधयत्वम् अस्ति तत् कश्चन धर्मः धर्मः अस्ति आसनं अधिकरणमस्ति आसने अधिकरणता अथवा अधिकरणत्वम् अस्ति अत्र यथा पूर्वम् अस्माभिः प पठितं य यज्ञिदत्ते आधेयिता अस्ति तस्य तस्मिन् तस्मिन् कश्चन धर्मः अस्ति आदयित्वं यज्ञिदत्ते आदयिता आदयिता अथवा आदयित्वं निष्ठ यज्ञिदत्ता अस्ति पुनः निष्ठयिता आधेयित्वम् अस्ति अपि च आसनम् आसनं निष्ठ अधिकरणता अथवा अधिकरणत्वम् अस्ति कश्चन धर्मः अस्ति आसने अधिकरणता अधिकरणत्वं धर्मः अस्ति तत्र आसने अस्ति सः धर्मः समीचीनम् अग्रिमक्षत्रम् अपि किञ्चित् प्रतिपादयतु महोदय तत्र पठित्वा तत्र साकाङ्क्षः पदार्थः पदार्थः यम अपेक्षते सः निरूपकं निरूपक इति उच्यते यथा पूर्वं पूर्वस्मिन् परिच्छेदे आसीत् केचन केचन शब्दाः सा, साकाङ्क्षि शब्दाः यथा वदामः पुत्रः तत्र भवति भाव, तस्य आकाङ्तुः आकाङ्क्षा भवति तथैव अधिकरण अधिकरणता वदामः अधिकरणं वदामः तत् आधेयिता तत् आकाङ्क्षा भवति यादृशी ईदृशी शब्दाः साकाङ्क्षि शब्दा, शब्दा पदार्थाः सन्ति यम् अपेक्षते यत् यत उदाहरणरूपेण अस्ति आधेयिता निरूपकः अधिकरणता यथा आधेयिता वदामः तत् तत् अधिकरण अधिकरणसाङ्क्षा अधिकरणस्य आकाङ्क्षा अपेक्षते तत् आधेयिता आदयिता निरूपयते अधिकरणता अधिकरणता अपि साकाङ्क्षा शब्दः अस्ति तदा आधेयिता निरू, निरू, निरूपयति यथा अधिकरन्ता वदामः तत् आकाङ्क्षा अस्ति कः आदेयः कः अस्ति समीचीनं बहु समीचीनम् अतः एव यत् निरूपयति सः निरूपकः इति उच्यते अग्रे पठेम विस्तरेण सारांशत्वेन अस्य वर्गस्य मुख्य अंशः अस्ति अधिकरणता आधेयता इति भाव भावद्वयम् अपि तु तयोः सम्बन्धः कः इति पुनः पुनः भवन्तः एतद् वाक्यं रटन्तु यज्ञदत्तनिष्ठ आधेयता आसननिष्ठ अधिकरणता वा अधिकरणता गुणनिष्ठ आधेयता इति गुणवर्ति आधेयता इत्यादयः अस्तु प्रश्नः अस्ति वा नो चेत् समापयामः अग्रिमे सप्ताहे पुनः मिलामः ई पत्रमपि वयं प्रेषयामः गृह अभ्या अभ्यासः अवश्यं भवेत् गृहपाठरूपेण वयं ई पत्रे प्रेषयामः हा अस्तु तर्हि आं स्वागतं शुभरात्रिः